अथैकनवतितमः सर्गः रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः बभूवहृष्टस्तम्भत्वा शत्रुजेतारमाहवे ततः सजाम्बवन्तम् च हनुमन्तम् च वीर्यवान् विभीषणमवष्टभ्य हनूमन्तम् च लक्ष्मणः ततो राममभिक्रम्य सौमित्रिरभिवाद्य च तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा निष्टनन्निव राघवाय महात्मने आचचक्षे तदा वीरो घोरमिन्द्रजितोऽवधम् रावणेऽस्तु न्यवेदयत रामाय तदा हृष्टो विभीषणः श्रुत्वैव तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम् प्रहर्षमतुलम् लेभे वाक्यम् चेदमुवाचः साधु लक्ष्मणतुष्टोऽस्मि कर्म चासुकरं कृतम् रावणेर्हि विनाशेन जितमित्युपधारय सतम् शिरस्युपाघ्राय लक्ष्मणम् कीर्तिवर्धनम् लज्जमानम् बलात् स्नेहादङ्कमारोप्य वीर्यवान् उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम् भ्रातरम् लक्ष्मणम् स्निग्धम् पुनः पुनरुदैक्षत शल्यसम्पीडितम् शस्तम् निःश्वसन्तम् तु लक्ष्मणम् रामस्तु दुःखसन्तप्तम् तम् तु मूर्ध्निचैनमुपाघ्राय भूयः संस्पृश्य चत्वरन् उवाच लक्ष्मणम् वाक्यमाश्वास्य पुरुषर्षभः कृतम् परमकल्याणम् कर्म दुष्करकर्मणा अद्य मन्ये हते पुत्रे रावणम् निहतम् युधि अद्याहम् विजयी हते तस्मिन् दुरात्मनि रावणस्य नृशंसस्य दृष्ट्या वीरत्वया छिन्नो हि दक्षिणो बाहुः सहितस्य व्यपाश्रयः हा। विभीषणः नो मद्भ्याम् कर्म महद्रणे अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्विनिपातितः निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः बलव्यूहेन महता निर्यास्यति हि रावणः बलव्यूहेन महता श्रुत्वा पुत्रम् निपातितम् तमुत्रवध स निर्यात राक्षप बलेनावृत्य महता हश्या दुर्जयनाथे नीता च पृथिवी चे न दुष्प्राहते तस्ंचक्रजेतरी चाह सतम रामः सुषेणम् मुदितः समाभाष्येदमब्रवीत् विशल्योऽयम् महाप्राज्ञसौमित्रिर्मित्रवत्सलः यथा भवति सुस्वस्थस्तथा त्वम् समुपाचर विशल्यः क्रियताम् क्षिप्रम् सौमित्रिः ते सर्वे प्रयत्नेन ते सुखिनस्त्वया एव स रामेण महात्मा हर्यूथपः लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम् स तस्य तदा निर्वेदनश्चैव संरूढव्रण एव च विभीषणमुखानाम् च सुहृदाम् राघवाज्ञया सर्ववानरमुख्याणाम् चिकित्सामकरोत्तदा ततः प्रकृतिमापन्नो हृतशल्यो गत क्लमः सौमित्रिर्मुमुदे तत्र क्षणेन विगतज्वरः तदैव रामः प्रवगाधिपस्तथा अवेक्ष्य सौमित्रिमरोगमुत्थितम् जहर्षिरे अपूजयत् कर्म स लक्ष्मणस्य सुदुष्करम् दाशरथिर्महात्मा बभूवहृष्टो युधिवानरेन्द्रो निशंयतम् शक्रजितम् निपातितम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकनवतितमः